मोऽध्यायः श्रीभगवानुवाच मया सप्तबलाः पार्थ योगं योगम् युञ्जन्मदाश्रयः असंशयम् समग्रम् मा यथा ज्ञास्यसि तछ्रुणु ज्ञानम देघं स विद्या इदम् वक्ष्याम्यशेषतः यज्ञात्वा मेघ भूयो न्यति अवशिष्यते कश्चित् यतति सिद्धये यततामपि सिद्धाना कश्चिन् मा तत्त्वतः ो बुद्धि च अहङ्कार इतियम् मे भिन्ना प्रकृतिः अष्टधा ्या प्रकृतिम् विद्यि मे जीव सर्वाणीत्युपधारया अहं कृष्णस्य जगतः प्रभवः प्रलयः तथा परतरम् नाद्यत् किञ्चिदस्ति धनम् जय मयि सर्वम् इदम् कोतम् सूत्रे मणिगणा इव शोकम् अप्सु पौतेया प्रभास्मि शशिसूययो प्रणवभ सर्ववेदेषु शब्दभे पौषम् यश्चास्ति विभावसौ जीवनम् सर्वभूतेषु तपश्चास्मि तपस्विषु सनातनम् बुद्धिः बुद्धिमता अस्ति तेजः तेजस्विनाम् कामरागविवर्चितम् धर्माविरुद्धो भूतेषु कामोऽस्ति भरतर्षभा येवेति तान् विद्धि न त्वकम् तेषु ते मयि But yeah, I think shitaha chaturvidh bhajan ज्ञानी च भरतर्षभा युक्तः एकभक्तिः विशिष्यते प्रियो ज्ञानिनोद्यर्थम् अहम् स च मम प्रियः sarva mithī samātmā sudurlabha पद्यन्ते न्यजवताः तं तम् तम नियमम् आस्था Because you are भवति अल्पमेधसा देवाम् देवययो याति मद्भक्ताः यान्ति maan abu प्रकाशः सर्वस्य योगमायासमा वेदागम् समतीतानि वर्तमा ेषा त्वन्तगतम् पाप ौति ते ब्रह्म तद्विदुः पृष्टौ अध्यात्मम् कर्मत्याचिनम् श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः